अथ प्रथमकाण्डे चतुर्थः प्रश्नः प्रारम्भः देवेऽप्यागम् ृत्युत्तमेन पविनेन्द्राय सोमन्तं वयस्वन्तं वृष्टिपल्रा यत्वा वृत्रघ इन्द्रायत्वा वृत्रधन्द्रा यत्त्वाभिमादिग् इन्द्रायत्वा दृत्यपद इन्द्रायित्वा विश्वदेव्यापदेष्वात्रास्थवृत्रे स्वा देवे वृत्रे यज्ञं दत्तोमस्य पिबो बहूतो सामोऽम् मे दत्तम् मा वागम् हिगोषं मा हिगोष्ठम् रागपागुतरास्वादिशान्तम् मनीश्वर नित्ये सोमादाभ्यम्नामजागृहितस्मै ते सोमसोमा यस्वाहा एवस्वा जन्मृषा वृष्णाभूतो देवो देवानाम् पवित्रमसि एषा भागो सेभ्य स्वास्वान्षस्कृतिश्वेभ्यस्वेन्द्रियेभ्यदिव्येभ्यः पार्थिवेभ्यस्वाष्टौर्मन्दरिक्षमन्वय स्वाहासूर्याय देवेभ्य स्वामलीजिवेभ्य एष देयोः प्राणाय त्वा मया मृहीतोऽस्यन्तर्यच्छ मघवन् पाहि सो मम निश्चराय सविषाय स्वान्तस्ते तथा मृत्या वा पृथिवीक्षतो सरोषा देवीश्चान्तर्यामेन्मादय स्वीर्नविशस्पृथविश्वेभ्यस्वेन्द्रियेभ्य दिव्येभ्यर्पाथिवेभ्य मनस्वाष्टौरन्तरिक्षमन्विहि स्वाहा आत्मा सुभवः सूर्याय देवेभ्य स्वामरीचिवेभ्य एष तेयोरपानाय त्वा चिबुवनस्सहसन्ते नीता विश्ववारान्तेन्द्रवायोभिरागतमिन्दवो वा निशन्तिः मया सजोषाभ्यान् मित्रावरुणा सुतस्वा महदावृथा ीतोऽसित्रावरुणाभ्याम् तेषायिभ्याम् वा भा। सोऽतामती क्रिया यज्ञम् निवीक्षतम् वयामगृहीतोशिष्युभ्याम् तेष तेयो निर्माद्भेभ्याम् वाच्ये धामस्विनादेह गच्छतम् अस्य सोमस्य पीतये ेषुत्वाप्रामीतोण्डाय त्वेषु निर्वीरताम्बाहिनथा पूर्वथा विश्वदेवताम्बलेशदगुणितम् प्रतीचेदम् र्काय त्वेषु देवं जन्म यज्ञपतिमभित्वाम् वादभिषन्तम्बाहेन्द्रेण विश्वेभ्य स्वा देवेभ्यः पृथिवीञ्च एकादशन्तांसवृहे विष्णुस्वाम्बन् नैष देयो निर्विश्वेभ्य देवेभ्यः वयामगृहेन्द्रायत्वा बृहत्व देवयस्वदमुत्थायुवे यत्त इन्द्रबृहत्वयस्तस्मै त्वा विष्णुवे नैष देयोत्थायुवे ्या वैश्वानरमृदाय जातमख्यम् कवियो सम्राटपतिनापात्रञ्जनयम् च देवाः वया वैश्वानराय ध्रुरो ध्रुवक्ष्रुवतमोक्षुतानामच्युदक्षत्तमचेषाय मधुश्च माधवश्च शुक्रश्च शुचिश्च नभश्च नभस्यश्चेशश्चोद्यश्च सहस्रहस्यश्च नभश्च नभस्यश्चोपयाम् गृहीतो सुतङ्गेर्भिर्न गोपरेण्यम् अस्य वा दन्ध्येषा वयाम् गृहीतोऽसि इन्द्राग्निभ्यान्द्वेषन्द्राग्निभ्यान्त्वा गोमासश्चे धृतो विश्वे देवासः सदासुषः सुतम् वयाम् गृहीतो दृश्येभ्यस्वा देवेभ्य एष देवो निर्विश्वेभ्यस्त्वा देवेभ्यः मरुत्वम् वृषभम् वा वृधानमकवारिम् तिर्ययो शासमिन्द्रम् श्वासाहमो नूतना योग्रमंस होदायाम् गृहीतो मरुत्पद एष देवो निरिन्द्रायित्वा मरुत्पदे यः वा हिसो मन्युताणीतीशन्मन्नाभिसन्तेन्द्रायत्वा मरुत्वद एष देयो निरुन्दायित्वा मरुत्वदे मरुत्वाय विसोश्वय आसङ्कस्व जगर्मिन्द्रनाम् वयाम् एष देयो निरुन्दायित्वा मरुत्वदे महाकुमिन्द्रो योजसा पर्जन्या वृष्टिमागुवृधे महेन्द्राय त्वेषु देयोर्मेन्द्रायत्वा महाकुमिन्द्रो न्यक्वृधे वेद्यायोः वयावगृहीतोऽसि महेन्द्राय त्वेषु देयोर्म तदा जनस्ते ृदन्दिनाम् वृत्ते सुम्नमादित्या सो भवताः आवोर्वाची समदर्ववृत्त्या वा वित्तरासत् ेन मन्दस्वदेन दृप्यदुर्गास्पदे वयम् तर्पयुतावृष्टस्तया श्रीणामिदर्वामश्वादिवेदिकंसामि वामस्य शिक्षयस्य देव भूरे रयाधिया वामपायस्यामेवत्रे अदध्येभिष्टवशेभयम् हिरण्यविश्वंहईतोऽसि देवायत्वा सवित्रे हिरण्यपाणिभूते सविता रमह्वये स चेता देवतापदं गृहीतोऽसि देवायत्वा सवित्रे सुशर्मा सुप्रतिष्ठा नो दुक्षे न महेश देयोश्वेभ्यस्वा देवेभ्यः बृहस्पतिसुशन्दो इन्द्रियावतपत्नीग्रहं गृह्णाम्यग् जनो स्य भक्ता कृष्णे प्रेता हरिवन्त हरियो सहसो स्वाहायोगं शिपमसा ौलीश्वर एषुवृन्द्राय कौलीश्वरे करनिर्विश्वर एषु देव आप्यायस्वन्द्रोमश्वाभिरुधिभिः भवानः सप्रथस्तमः भीरुष्टे ये गोर्वतरामवश्यम् निर्श्यन्दे विषतम् मत्या सह अस्माभिरोनप्रतिशो देयन् देहपरेशुभस्यान् ज्योदर्शीन् वा आसादयामि त्यो दुष्कृदम् वा साधारयामित्यो दुर्गतम् वा साधयामि भास्पदीन् वा साधारयामि त्रीन्पासाधयामिन् वासाधयामित्यमानान् वा साधयामि रोचमानान् वा साधयामिषन् वा साधयामि बोधिन्देन् वा साधयामि याय स्वाहा य स्वाहा व्यासाय स्वाहा यहो य स्वाहा व्याय स्वाहा श्रे स्वाहा शोभाय स्वाहा स्वाहा स्वाहा ब्रह्मात्रयि स्वाहास्मै स्वाहा ष्टः सिङ्गेन आदिष्ठवृत्तः रथं युक्ता देव ब्रह्मणा हरिचीन एषु देयो षोडशिने पयां गृहीतोऽसिन्द्रायित्वा षोडशिन एषु देयोपा षोडशिने असाभि सोम इन्द्रदेशविष्ठदृष्टवागैः आत्माविद्य सूर्यन्न लक्ष्मिभिः पयामि तलसीन्द्रायित्वा षोडशिन एष देवोन्द्रायित्वा षोडशिने सर्वस्य प्रतिशीपरीभूमिस्त्वपसाधिताो नास्मि सुषदा भवेच्छास्मिलसीन्द्रायित्वा षोडशिन एष देवोन्द्रायित्वा षोडशिने भागु इन्द्रोपी शर्मेच्छतु स्वस्ति नामघवाक्रोधम् तु व्रियामुलिः दोषीन्द्रायत्वा षोडशिन ईषदेयो निन्द्रायने दोषा इन्द्रमम्बन्धावे मुलिः व्यामुलिः दोषीन्द्रायत्वा षोडशिन ईषदेव निन्द्राय षोडशिने देवा आत्मा जगतस्तये राणमे न भूयिष्ठान्ते एतत्ते ज्ञैराधय सोमक्षुतम् यत्रस्य वधा न यत्तस्य मथा प्रयतचन्द्रदक्षिणा यज्ञस्य मथा तुम् वैतमत्यमो सुधातु दक्षिणम् विशम्पस्य चन्द्रक्षणम् यतस्व सेस्मतात्रादेवत्रागच्छत मधुरेव प्रदातारमाविषदानवहायास्मान्ते मया नोके सेतमुस्कृतम् यत्र विनन्ददातु गुणसाले शिवो विश्वपे सासन्तनोभिरगन्म हिमनसासकं शिवेनो युद्विलिष्टम् यदद्यत्त्वा प्रेस्मिन्न देवाः सदनुषाप्रतिभागम् या नाम प्रेरयश्वे सधश्चेदे परमाणा वीरुता रुणस्य कारसूर्यायवन्धाहोक्ताहृदयासहस्रमुर्भे गङ्गीयासुमतिष्ठे अस्तु प्सन्दहा सम्भावि सन्तोषदे यज्ञस्य ेन वाक्यविधेवावृषङ्नामदेवेत्येवरिषस्पायतु मित्राणाभोषेस्मे भूयासुस्मान् विष्णो देवीराम्भुप्रेतप्रदेतो वर्णस्य पाशप्रत्यो वर्णस्य पाशयतो यस्मा हृदा केरिणामन्यमानामर्चम् प्रजाभिलग्ने यस्मैत्व जातवेदघुलोकमग्ने अनकोसपुत्रिणम् वेदवन्तम् गोमन्तमोदयम् न शे स्वस्ति सुपुत्रशवसोत्रम् कामगादयः त्वामिन्द्रातिरिच्यते मुक्थौथ्येषादनीथे नीथे मघवानगो सुदासः पुत्रान्ते मासूसुरुचार्वसु पाङ्गेषु मतामपि म् वाजन्वित्र प्रथमकांडे चतुर्थ पश्चात